अथ एकोनसप्ततितमोऽध्यायः जनमे जय उवाच सम्भवम् भरतस्याहम् चरितम् च महामतेः शकुन्तलायाश्चोत्पत्तिम् श्रोतुमिच्छामि तत्त्वतः दुष्यन्तेन च वीरेण यथा शकुन्तला तम् वै पुरुषसिंहस्य भगवन्विस्तरम् त्वहम् श्रोतुमिच्छामि तत्त्वज्ञ सर्वम् मतिमताम् वरा वैशम्पायन उवाच स प्रभूतबलवाहनः वनम् जगामगहनं। हयनागशतैर्वृतः बलेन चतुरङ्गेण व्रतः परमवल्गुना खड्गशक्तिधरैर्वीरैः गदामुसलपाणिभिः प्रासतोमरहस्तैश्च ययौ सिंहनादैश्च योधानाम् शङ्खदुन्दुभिनिस्वनैः रथनेमिस्वनैश्चैव स नागवरबृंहितैः नानायुधधरैश्चापि नानावेषधरैस्तथा ह्रेषितस्वनमिश्रैश्च क्ष्वेडिता स्फोटितस्वनैः आसीत् किल किला शब्दः तस्मिन् गच्छति पार्थिवे प्रासादवर शृङ्गस्थाः परया नृपशोभया ददृशुस्तम् स्त्रियस्तत्र शूरमात्मयशस्करम् शक्रोपममममित्रघ्नम् परवारणवारणम् पश्यन्तस्त्रीगणास्तत्र वज्रपाणिम् स्म मेनिरे अयम् सपुरुषव्याघ्रो रणेऽवसु पराक्रमः यस्य बाहुबलम् प्राप्य न भवन्त्यसुहृद्गणाः इति तुष्टुवुः पुष्पवृष्टिश्च सस्रजुस्तस्य मूर्धनी तत्र तत्र च विप्रेन्द्रैः स्तूयमानः निर्ययौ परमप्रीत्या वनम् मृगजिघंसया तम् देवराजप्रतिमम् मत्तवारणधूर्गतम् द्विजक्षत्रियविट्शूद्र निर्यान्तमनुजग्मिरे ददृशुर्वर्धमानास्ते आशीर्भिश्च जयेन च सुदूरमनुजग्मुस्तम् पौरजानपदास्तथा न्यवर्तन्त ततः पश्चात् अनुज्ञाता नृपेणः सुपर्णप्रतिमे तथा स गच्छन्ददृशे धीमान् नन्दनप्रतिमम् वनम् बिल्वार्कखदिराकीर्णम् कपित्थधव सङ्कुलम् विषमम् पर्वतस्रस्तैः अश्मभिश्च समावृतम् निर्जलम् निर्मनुष्यम् च बहुयोजनमायतम् मृगसिंहैर्व्रतम् घोरैः अन्यैश्चापि वनेचरैः तद्वनम् अनुजव्याघ्रः सभृत्यबलवाहनः लोडयामास दुष्यन्तः सूदयन् विविधान् मृगान् बाणगोचरसम्प्राप्तांस्तत्र च सायकैः दूरस्थान् सायकैः कांश्चित् अभिनत्स खड्गेन निरकृन्तता कांश्चिदेणान् समाजघ्ने शक्त्या वरः गदा मण्डलतत्त्वज्ञः चचारामितविक्रमः तोमरैरसिभिश्चापि गदामुसलकम्पनैः चचारसविनिघ्रन्वै स्वैरचारान्वनद्विपान् राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः लोड्यमानं महारण्यं तत्यजुस्मं मृगाधिपाः तत्र विद्रुतयूथानि हतयूथपतीनि च मृगयूथान्यथौत्सुक्याच्छब्दं चक्रम <laughs> शुष्काश्चापि न दीर्गत्वा जलनैराश्यकर्षिताः व्यायामक्लान्तहृदयाः पतन्ति स्म श्रान्ताश्च पतिता भुवि केचित्तत्र नरव्याघ्रैः अभक्ष्यन्त बुभुक्षितैः केचिदग्निमथोत्पाद्या संसाध्य च वनेचराः भक्षयन्ति स्म मांसानि प्रकुट्यविधिवत्तदा तत्र केचिद्गदा मत्ता बलिनः शस्त्रविक्षताः भीताः प्रद्रवन्ति स्म वेगिताः शकृन्मूत्रम् सृजन्तश्च क्षरन्तः शोणितम् बहु वन्या गजवरास्तत्र न् बहून् तद्वनम् बलमेघेन शरधारेण संवृतम् व्यरोचत मृगाकीर्णम् राज्ञा हत मृगाधिपम् इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि शकुन्तलोपाख्याने एकोनसप्ततितमोऽध्यायः